श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धम् न हि तेषां कल्याणानां प्रभुवति कुतश्च न मृत्युर्विना भगवद्तेजसश्चक्रापदेशाद्यस्मिन्प्रविष्टे सुरवधूनां प्राय पुंसवनानि भयादेव स्रवन्ति पतन्ति च अथा अथातलेमयपुत्रो शिरोवरो निवशन्ति येन ह वा इयश्रेष्टा शण्ड्वतीर्मायाः कासलाद्यापि वाया यस्य यस्याच जिम्भमाणस्य मुखतस्त्रयः श्रीगणा उत्पद्यन्त स्वैरण्यकामिण्य पुंश्चल्य इति या वै विलायनम् प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वाश्वविलासावलोकनानुरागस्मिन् तसंलापोपगुहलादिभिः स्वैरं किल रमयन्ति यस्मिन्नोपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहं यद्ययुतं महागजं बलमात्मानम् अभिमन्यमानकथ्यन् कथ्यन्ते मदान्त ततो धस्ताद्वितले हरो भगवान् हाटकेश्वरसुपार्षदभूतगुणावृतः प्रजापतिसर्गोपभिषाम्बिह्नाय भवो भवान्यासमिथुनीभूत आस्ते यतः प्रविद्धा सरिद्रवरा हाटकीनां भवयोर्वीर्येण यद्यचद्रभानुर्मातरिश्वनां समिध्यमान ओजशा तन्निष्टयूतं हाटकाक्षं सुवर्णम् भूषणेना सुरेन्द्रावरोधेषु पुरुषाश पुरुषिभिर्यां धारयन्ति ततो धस्तां सुतले उदारश्रवा पुण्यश्लोको विरोचनात्मनं जो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादि ते लब्धकायो भूत्वा वटुपावनरूपेण पराक्षिप्तलोकत्रयो भगवदूङ्कम्पयैव पुनः प्रवेशित इन्द्रादिष्व विद्यमानयां सुसमृद्धया श्रियाभिजुष्ट स्वधर्मेणाराधयन्तमेव भगवन्तम् आम् आराधनीयम् अवगत साध्वसम् आसेधुनापि नो एवैन्तस्साक्षात्कारो भूमिदानस्य यद्दन् भगवद्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेव तीर्थतपे पात्र उपपण्डे परया श्रद्धया परमादरसमाहितं समाहितमनसा सम्प्रतिपादितस्य साक्षात् अपवर्गद्वारस्य यद्वीलीलीं लीलयैश्वर्यं यस्य हावछिदं पतनं तस्खलनादिशो विवश स्वकिन्नामाभि गृहन् पुरुषकर्मबन्धनमञ्जसा विदनोति यस्य हव प्रतिपाधनम् मोक्षपोऽन्यथैवोल्लम्भते तद्भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्यात्मद आत्मतैव तयैव न वै भगवान् नूनम् अमुष्यां नू जग्राह पुनरात्मानो स्मृतिमोषणम् मायामे भोगैश्वर्यमेवातनुतेति नदी यत्तद्भगवतान्नदी गतान्योपायेन याच्छाच्छलेनापहित स्वशरीरावशेषितलोकत्रयो वरुणपाशय सम्प्रति मुक्तो गिरिन्दीर्यां चापविद्ध इति उवाच